हरि ओं श्री सीता रामचन्द्रभ्यम अथ श्रीमद् वाल्मीकि रामायणे त्रिषष्टितम सर्ग राज्ञो दशरथस्य शोकस्य कौसल्यां प्रति स्वकर्तृक मणिकुमार वसविषयक प्रसङ्गस्य श्रावणम् प्रतिबुद्ध मुहूर्तेन शोकोपहत चेतन है अथ राजा दशरथ सचिन्तामभ्यपद्यते रामलक्ष्मणयोश्चैव विवासाद्वासुगो वासुगोपमम् आपेदे उपसर्गस्थम् तम सूर्यम् निवासुरम् तद्भार्य हि गते रामे कौसल्याम् कोसलेश्वरः विवक्षूरसितापाङ्गिम् स्मृत्वा दुष्कृतमात्मनः स्वराजा रजनीं षष्ठीम् रामे प्रव्राजते वनम् अर्धरात्रे दशरथ सुस्मर दुष्कृतं कृतं न राजा पुत्र शोकार्थ स्मृत्वा दुष्कृतमात्मनः कौसल्यां पुत्र शोकार्ताम् इदं वा च नमब्रवीत् यदाचरति कल्याणी शुभं वा यदि वा तदेव लभते भद्रे कर्ता कर्मजमात्मनः गुरुलाघवमर्थानाम् आरम्भे कर्मणां फलम् दोषम् वायो न जानाति स बाल इति होचते कश्चिदाब्रवणं चित्वा पलाशा च निषिञ्चति पुष्पं फले गुरुधु स शोषोचति फलायमे अविज्ञाय फलं यो कर्मा सैवानुधावति स्वोचेत् सो फलवेलायाम् यथा किञ्चकसेचकः सोऽहं मां रेवणं चित्वा पलाशां च निषेचयम् रामं फल गमे त्यक्त्वा पश्चाचोचामिदुर्मतिः लब्धशब्देन कौसल्ये कुमारेण धनुष्पत् कुमार शब्दवेदीति मया पापम् इदम् कृतम् तदिदम् मेन्दुसम्प्राप्तम् देवे दुःखं स्वयं कृतम् सम्मोहादिः बहलेन यथा स्याद् भक्षितं विचम् यथान्यः पुरुषः कश्चित् पलाशय मोहितो भवेत् एवं मयाप्य विज्ञातम् शब्दवेद्यम् इदं फलम् देवेन्दूढाय त्वमभू इवराजो भवम्यहं तत प्रावरूढनु प्राप्ताय नम कर्म विवर्धिरे परेताय चरितां भीमं दोमान् तप्ता च जगदंशुभि सद्य स्निग्धा ददृशि रेखनः ततो जर्हृशिरे सर्वे ैकसारङ्गणः क्लिन्न पक्षोत्तरास्नाता कुच्छादीव पतत्रिणः वशिवातव दूताग्रान् पादपान्न पतितेनाम्भसान्न पतमानेन च सकृ अबभो मत्तसारशिवाचर पाण्डुररुणवर्णानि श्रोता सेमान्य शुश्रू गिरी धातुभ्य भस्मे भुजंग सुखे काले धनुष्माषु मी व्यात संकल्प सर यू मन गृपे महिषम रात्रो गजम्बाभ्य गृग अन्द्वा श्वाप किंचिति शिशूर अथान्तकारे त्वश्रोषम् जले कुम्भस्य पूरितः अचक्षुर्विषये घोषम् वारणस्येव नार्दतः ततोऽहम् चरमुद्धृत्य दित्तमाशीविचोपमम् शब्दम् प्रतीगप्रेसु अभिलक्ष्यम् अपासयम् समुञ्चम् निशितम् वरणम् अहम् माशीविचोपमम् तत्र वा गुषसि व्यक्ता प्रदुरासीद्वनोकसः हा हे ते पतदस्तो ये बाणाद् व्यथित बस्मिन् निपत ते भूमौ वाग्रभू तत्र मानुशी, कथम् अस्मद्विधे शस्त्रं निपते च तपस्विनी प्रविं नदीं रात्रौ उदाहरोऽहमागतः इषु कस्युतुम ऋषि दंड से वने, वने है। कसम वे नीवत कथम दुशस्त्रेण वधिध से जटाभारधरविन कौ वधन ममार्थिस्यात सिया किब निष्फलम आरधम केवल नर्थ संहित न क्वचित् यथैव मन्येत यथैव गुरुतल्पगम् नेमम् तथानुशोचामि जीवितक्षयमात्मनः मातरं पितरं चोभौ अनुशोचामि मद्वधे तदेतन्मिथुनम् वृद्धम् चरकालभृतं मया मयि पञ्चत्वमापन्ने कां वृत्तिं वर्तयिष्यति वृद्धो च मातापितरौ कैन स्म नेता सुबा नुत्व मम धर्मा कांक्षिण कराभ्याम सशरम चापम व्यथित पद भुवि सस्ह कर्णम श्रुवाचर्ल पतोनशी सम्रात शोक व्ययन भ्वशमा सम विचेतन तम् देशम् हमागम्य दीनस स्वर्मनः अपश्यमिषुणातीरे सदैवास्तापसंहतम् अवकीर्ण जटाभारम् प्रविद्ध कलशोधकम् पातु शोणित दिग्धाङ्गम् शयानम् शल्यवेधितम् स इत्युवाच वच्रूरम् विरक्षन् निव तेजस किं तवाप्रकृतम् राजन् वने नीव सतामया जीर्षुरम्भो गुरुवर्थम् यदहं ताडित एकेन खलु बाणेन मर्मण्य भियते मयि द्वौ वन्ध नियतो वृद्धौ माता जनयिता च मे दुर्बला बन्धु मत्प्रतीक्षोऽपिपासितौ चिरमाशाम् कृताम् कष्टाम् तूष्णाम् सन्धारीश्चितः न नूनम् चपशो वास्ति फलयोग श्रुतस्य वा पिता ह्यन् माम् न जानीते शयानम् पतितम् भुवि जानन्नपि च किम् कुर्यात् अशक्ते स्था परिक्रमः भिद्यमानम् इवाशक्त मे शीघ्रमा चक्ष न वा मनोदहे क्रुद्ध वनमिपरीज ये पिताश्रम तम प्रसाद गं ना संगोपिता शपेद विशल्यं कुर मजन मे निशितर है वृणद्धि मृदुसोसेरम् तीरमम्बूरयो यथा सशल्य क्लिश्यते प्राणे विशल्यो करिष्यति इति माम् अविशचिन्ता तस्य शल्यापकर्षणे दुःखितस्य च दीनस्य मम शोकतुरस्य च लक्षया मा सरुषि चिन्ता मुनि सुतर साम्यमानं वाच उवाच परमार्थवीलमानो विवृत्ताङ्गो चेष्टमानो गतक्षयम् संस्ताभ्यशोकम् धैर्येण स्थिरचित्तो भवाम्यहम् ब्रह्मत्याकुतं तापम् हृदयादपनीयताम् न द्विजातीहं राजन् मा भूते मनसो व्यथा शुद्रायामस्मि वैश्येन दातो नरवराधिपये इतीवदृष्ट बाणाभीतमर्मणः विघूर्णतो विशिष्टस्य वेपमानस्य भूतले तस्य स्वताम्यमानस्य सम्ब्राणम् उद्धरम् स माम् उद्वीक्ष्य संस्रो जौ प्राणान्त बोधन जलार्गात्रम् तु विलप्य कृष्णम् मर्म व्रणम् सन्ततमुच्छ्वसन्तम् ततः सर्वन्तमहम् शयानम् समीक्ष्य भद्रे सुभृशम् विषण्णे इत्याख्ये श्रीमद् रामायणे वाल्मीकि अधिकार्ये विद्याकाण्डे त्रिषष्टि तमः सर्गः श्रीसीतामचन्द्रार्पणमस्तु